गर्गसंहिता खण्डं सेवन् विश्वजित् खण्डम् अध्यायम् तर्टि टु श्रीनारद उवाचा अध कार्ष्णिर्महाबाहुकेतुमालं विजित्य सः भद्राश्वं धन्वी खण्डं योगसमृद्धिमद यस्य साक्षाद्राजदे गिरिसाक्षाद्राजदे गन्धमादनः नामनी यत्र गङ्गावहन्दी पावनाशिनी वेदक्षेत्रे महातीर्थे सर्वपापप्रमोचने हयग्रीवो महाबाहुर्यत्र संनिहि दोहरिः भद्रश्रवा धर्मसुधस्तस्य सेवां करोति गङ्गाधीरस्य पुलिने प्रद्युम्नस्य महात्मनः बभुवु शिभिरव्युह हेमाम्बरमनोहराः भद्रश्रवधर्मसुधो महात्मा भद्राश्वदेशाधिपतिर्महौजाः प्रदक्षिणीकृत्य न भद्रश्रवा उवाच त्वम् साक्षाद्भगवान् पूर्णपरिपूर्णतमः स्वयम् साधूनाम् रक्षणार्थाय जगज्जेतुम् विनिर्गदः भगवन् शम्भरो नाम दैत्यपूर्वम् जिदस्त्वया तस्य भ्रादामः दुष्टकनीयानुत्कच स्मृतः गोकुले कृष्णचन्द्रेण मारिदः शकटस्थितः तस्य भ्राधा महादुष्टो ज्येष्ठोऽस्ति शकुनिर्बली जेतुं योग्यस्त्वया देव नान्यैरपि कदाचन श्रीप्रद्युम्न उवाच कस्य वंशे समुद्भूत शकुनिर्नाम दैत्यराट दिस्तस्य कस्पुरे बल किंवदच भद्रश्रवा उवाच कश्यप्य मुर्दिमादिद बूववधु हिण्यकशिपुर्ज्येष हिण्याुज हिण्या बूववुर्नवपुत्र शकुनिशम्बरो हृष्टो भूदसन्दावनो वृकः कालनाभो महानाभो हरिष्मश्रुस्तदोत्कजः। देवकूटा दक्षिणे हि जठरस्य गिरेरथः पुरी चन्द्राग्वीनाम दैत्यानाम् दुर्गमण्डिता शकुनिस्तत्रवसदिभ्रातृभिषड्भिरावृतः यदा यदा यदाहि मुनयो यज्ञारम्भं प्रकुर्वदे तदा तदा हि तेनापि भङ्गोकारि यदुत्तमा यस्माच्च सन्धि चक्राद्या उद्विघ्ना पदे जेतुं योग्यस्त्वया देवदेव दृग् दैत्य पुङ्गवः त्वया जिदं जगत् सर्वं भक्तानां नमस्तुभ्यं प्रद्युम्नायनमस्तुभ्यं चतुर्व्यूहायते नमः गोविप्रसुरसाधूनां छन्दसाम्पदये नमः श्रीनारद उवाच एवम् साक्षात् प्रद्युम्नो भगवान हरिः देवाय भद्रश्रवसेमा भाष्टेत्यभयं ददौ अध कार्ष्णिर्मः बाहु स्वसैन्यपरिवारिदः पुरीं चन्द्रावदीं गन्तुम् प्रस्थानमकरोत् तदा मन्मुखा चकुनि श्रुत्वा प्रागच्छन्दं यदुत्तमं दैत्यानां सदसि प्राह शूलमुद्यम्य दैत्यराट शकुनिरुवाच दिष्ट्या दिष्ट्या हि शत्रुर्मे प्रद्युम्नोऽत्र समागतः जेतुं योग्यो मय दैत्या भ्रादुर्मय्यस्ति प्रागृह्णम् ्राधामेष शम्बरो नाम येन पूर्वम् च मारितः तस्मात् तम् खादयिष्यामि प्रद्युम्नम् यदुभिः सह तस्माद्यातबलम् तस्य विध्वंस्तम् कुरुदासुराः पश्चात्पुरन्तराधीशम् खादयिष्यामि निर्जरान् श्रीनारद उवाच इति श्रुत्वा वचस्तस्य दैत्यो हृष्टो महाबलः आययौ सम्मुखे योद्धुम् दैत्यकोडिसमावृतः प्रत्युम्नो भगवान् साक्षात् लीलामानुषविग्रहः महत्या सर्वसेनाया गृध्रव्यूहम् चकारः गृध्र चौ वर्दमानो निरुद्धो धन्विनाम्बरः ग्रीवाह्यामर्जुनपृष्ठे साम्भोजाम्बवदी सुधः पादयोरुभयो राजन्नास्तितौ दीप्तिमद्गतौ कार्ष्णीसाक्षा तदुदरे पुच्छे भानुर्हरे सुधः बभूव तुमुलं युद्धं सीता गङ्गातडे नृप दैत्यानां यदुभिः सार्धमब्धीनामब्धिभिर्यथा बाणैस्त्रिशूलैर्मुसलैर्मुद्गरैस्तोमरृष्टिभिः ववृषुर् दानव सर्वे धाराभिरिव वारिदाः रुरोधसूर्यं च आकाशं सैन्यपादरजोभृशं राजन्स्वबाणं च यथा वारिदा प्रदुभवा वृको हर्षो नील नादये वजा महाशपवनो वह क्षुदी दशमस्मृत मित्र बिन्दात्मजा दे युयुर्दन वय सह बांधकारे संको नाम हरे सु सर्वेषामग्रधप्राप्तो धनुष्टङ्कारयन्मुहुः दैत्यान् बिभेदबाणौखैः कुवाक्यैर्मित्रदामिव गजान् रथान्हयान्वीरान् पादयामास वृकबाणैर्भिन्नपादा वृक्षा वादहदा इव अधोमुखावूर्ध्वमुखा बाण्णौकैश्चिन्नबाहवः रेजूरणाङ्गणे राजन् भाण्डव्यूह इवाहदाः द्विधा भूदागजाबाणैपतिदारणमण्डले विरेजुस्तुरिकाविद्धाः कूष्माण्डशकला इव तदैव हृष्टः सम्प्राप्तः सिंहरूढो महाबलः बिभेदकवचम् तस्य सिं जिनीम् दशभिश्चरैः तथा त्रिभिरथम् च बाणानाम् विंशत्या धनुजाधिपः छिन्नधन्वा वृको भूत्वा हदा स्वो हदसारथिः अन्यं रथं समरूढो धनुर्जग्राहरोषधः तावत्तस्य धनुर्हृष्टचिच्छेदसमरे सुरः तदा गदा समादाय वृको यादवपुङ्गवः तदाडमूर्धनि पञ्चास्यं दैत्यम् पृष्ठस्थितम् पुनः मृगेन्द्रक्रोधसम्पूर्णः समुत्पत्त्यरणाङ्गणे अनेकान् पादयामास नखैर्दन्धैकरैरपि हुङ्कारम्भे कृत्वा ललज्जिह्वस्फुरत्सडः वृकम् सम्पादयामास रम्भादण्डम् गजो यथा गृहीत्वादु वृकोदोद्भ्यां पादयित्वा महीतले तस्योपरि नदंस्तस्थौ मल्लो मल्लं यथा नृप उत्पतन्तं पुनः सिंहं सर्वयन्तं तनुं बलाद तदाडमुष्टिनाथं वैमित्रविन्दात्मजो बली तस्य मुष्टिप्रहारेण केसरी पञ्चदाम् गतः तदा क्रुद्धो हृष्टदैत्यशूलम् शिक्षेप सत्वरम् शूलम् स्फुरन् महोल्काभम् चिच्छेदत्वसिनावृकः तीक्ष्णया तुण्डया राजन्फणिनम् गरुडो यथा हृष्टोऽपि स्वमसिम् नीत्वा नादयन् स्वम् जखानं भृकं मूधि कम्बयन्वसुधातलम् खड्गकोशे तद् खड्गमुपधार्य भृको बली कन्धरे स्वेन खड्गेन तं तदाढस्फुरच्छुचं खड्गच्छिन्नं चिरस्तस्य पदितं पतितम्भुवि रेजे कमण्डलुमिव सकिरीडं सकुण्डलं हृष्टे मृदे तदा दैत्याशेषा सर्वे पलायिताः भयादुरामहाराज ययुश्चन्द्रावतीं पुरीं देवदुन्दुभयोनेदुर्नरदुन्दुभयस्तदा श्रीविकस्योपरि सुरा पुष्पवर्षं प्रचक्रुरे इति श्रीगर्गसंहितायाम् श्रीविश्वजित्कण्डे श्रीनारदबहुलश्वसंवादे कृष्णदैत्यवधो नाम द्वात्रिंशोऽध्यायः ओम् अध्यायम् 33, त्रि श्रीनारद उवाच कृष्टम् निपदितम् श्रुत्वा शकुनिक्रोधमूर्च्छितः भ्रातृन् सम्प्रेषयामास देवानाम् भयकारकान् भूतसन्तापनो नाम गजमारुह्य निर्गदः वृहकरम् समारुह्य कालनाबोध सूकरम् महानाभो मत्तपृष्टम् हरिश्मश्रुस्तिमिङ्गिलम् वैजयन्तम् रथम् जैत्रम् मय दैत्यविनिर्मितम् पञ्चयोजनविस्तीर्णम् सहस्राश्वनियोजितम् मायामयम् कामकम् च पदाकाशदसंवृतम् सहस्रकलशाढ्यम् च मुक्तादामविलम्बितम् रत्नभूषणभूषाढ्यम् शद चन्द्रसमोज्ज्वलम् सहस्रचक्रसंयुक्तं कण्ठाकारविभूषणम् आरुह्य शकुनि पश्चाद्योद्धुकामो विनिर्यय अक्षौहिणीभिर्द्वादशभिर्दैत्यानां मयिभिलेश्वर धनुस्वनैर्वीरशब्दैरश्व हे शारथस्वनैः चीत्कारैर्हस्ति नामाशामण्डलम् तु जगर्जः दैत्यसेन प्रयाणेन चकम्बे मण्डलम् भुवः निपे दुर्गिरयोनेका विचे लुः सिन्धवो नृप निपादितार्गला देवैर्बभूवाश्वमरावती दृष्ट्वा प्रद्युम्नो धन्विनाम् वरः बलिधैर्यधरकार्ष्णि प्राहेदं यदुपुङ्गवान् प्रद्युम्न उवाच इदं शरीरं भुवि त्वाञ्जभौतिकम् फेनोपमं कर्मगुणादिनिर्मिदम् गदागदम् कालवशम् कदापि बुधा न शोचं दि यथार्भकैकृतं गच्छन्ति चोर्ध्वम् किल मध्य जी राज नगछतिमसरे मुहुर्मुहुस्ते विचरि कर्म बिभे किलो यहांत्रेणाचल भूवृदाव मनसा कृद जगत्चे भग थ्या भर्क ह्यर्भग आवृतो यथा यथा सुखम् मण्डलवर्तिनाम् चलम् तथास्ति पादालनिवासिनामपि तथा मराणाम् क्रुधुभि कृतम् स्मरेत् सर्वम् त्यजेत परो जनाः ऋदोर्गुणा देहगुणा स्वभाव अफर्दिनम् यान्ति यथा तथा जनः दृश्यम् च यद्यन्न हि किञ्चिदस्ति यथा व्रजे गच्छति पान्थसङ्गमम् दृष्टम् यथा वस्तु यदोल्कया तथा परेगदेकिम् गदे किम् शुभयप्रयोजनम् विधाय मार्गम् विचरे शिवस्य पश्यन् हि सर्वत्र हरिम् परेश्वरम् यधेन्दुरेको जलपात्रगृन्दगो यथाग्निरेगो विदितः समिच्छये तथा परात्मा भगवाननेक वत्सोन्दर्भः स्यात् सुकृतेषु देहिषु योज्ञाननिष्ठो दिविरागमाश्रितः श्रीकृष्णभक्तस्त्वनपेक्षकोऽपि यः तपोवनम् पृशन्तित्तम् दे त्रिगुणा न सर्वदः ततो यदि स्तोऽद्यगमत्परात् परम् सुखी सदानन्दमयस्तु बालवद देहेन पश्यत्युत सर्वकारणं धृतं च वासो मदिरामदान्धवद सूर्योदये सर्वतमो विलीयते प्रदृश्यदे वस्तु गृहे यथा जनैः ज्ञानोदये ज्ञानतमप्रलीयते सम्भ्राजते ब्रह्मपरं तनौ तद्धा यथेन्द्रियाणां च पृथक् च वर्त्मभ्यर्नोन्नीयतेऽर्थस्त्रिगुणाश्रयः परः एकं ह्यनन्तस्य परस्य धाम तत्ताध धा। तत्तधा मुनीना किल शास्त्रवद्मभिः परं पदं केऽपि वदन्ति वैष्णवं के वापि वैकुण्ठपरं वा परेशं यान्तिं च यत्केऽपि तमः परं बृहत्कैवल्यमेघे प्रवदन्ति धामगे के यदक्षरं केऽपि दिशं वदन्ति के, के गोलोकमाद्यं प्रवदन्त्यथा के जिन्यकुञ्जम् निजलीलया वृतम् प्राप्नोति कृष्णस्य पदम् च तन्मुनिः श्रीनारद उवाच इति कार्ष्णेर्वच श्रुत्वा सर्वे यादवपुङ्गवाः शस्त्राणि जगृहृहृष्टा तज्ज्ञाने धैर्यवर्धने बभूव तुमुलम् युद्धम् दैत्यानाम् यदुभिः सह सीता तडे चाब्धौ रक्षसां कविभिर्यथा रजिनो रथिभिस्तत्र पत्तिभिः पत्तयो नृप अश्ववाहैरश्ववाहा युयुधुश्च गजा गजैः केचित्करीन्द्रा उन्मत्ता महामात्यै प्रणोदिताः गिरीन्द्रा इव दृश्यन्ते मुक्तानां मेकडम्बरैः शुण्डादण्डैश्च भूत्कारैः सचीत्कारैः सशृङ्गलैः पादयन्दोरथानश्वान् वीरान् राजन्रणाङ्गणे शुण्डादण्डैः सं गृहीत्वा रथान् सा अश्वान् स सारथीन् निपात्य भूमा उद्धाप्य चिक्षिपुस्टाम्बरे बलाद कांश्चिन् ममर्धपादाभ्याम् संविधार्यकरै दृढैः सक्षताश्च गजराजन्प्रधावन्दोरणाङ्गणे सपक्षतुरगा राजन्नश्ववाहप्रणोदिताः उल्लङ्घयन्तो धरदान् गजकुम्भान्तरे गदाः के जिदस्यर्महावीराशक्तिहस्तामदोत्कटाः जग्नुर्गजस्तान्नृपदीन् मृगेन्द्रा इव यूधपान् अश्वाजू केऽपि केपिसेनां संविदाय विनिर्गताः खड्गवे घैः पद्मवनं लीलाभिर्वायवो यथा केचित् परस्परं साश्वैरुत्पदं दोरणाङ्गणे खड्गैर्जघ्नोर्यधा क्रव्ये चञ्चुभि पक्षिणोऽम्बरे केचिद् खड्गैः परशुभिः केजि चक्रैः पदादयः चिच्चिदुर्निशितैर्बल्लैर् फलानीव शरांसिज सङ्ग्रामजित् बृहत्सेनशूरप्रहरणो विजित जय सुभद्रो वामश्च सत्यकोश्व युरेव हि भद्रायाश्च सुदाह्यदे श्रीकृष्ण ह्यौरः साशुभाः भूद सन्तापनो नाम गजारूढो महासुरः यदुसैन्ये महाराजचक्रे नारा च दुर्दिनं बाणान्धकारे च कृते भूतसन्तापनेन वै सङ्ग्रामजित्तदा प्राप्तश्रीकृष्णस्य सुतो बली विव्याधबाणशतकैर्भूतसन्तापनो बली प्रलयार्णव सङ्घोषभीमसङ्घट्टनादिनीम् धनुर्जां तस्य चिच्छेदभूतसन्तापनो बली सङ्ग्रामजिद्धनुश्चान्यद्गृहीत्वा स्वं तटित्प्रभं सज्जं कृत्वा विधानेन शदम्बाणान् समादधे ते बाणास्तनुर्ज्यां च कवचं लोहनिर्मिदं भित्त्वा चित्वा तस्य गजं भित्त्वा वनिं गताः बाणप्रहारव्यधितः किंचिद् गजं स्वं नोदयामास भूतसन्तापनो बली नागं दृष्ट्वा सङ्ग्रामजिद्बली गृहीत्वा स्वमसिं दिव्यम् सञ्जखानरणाङ्गणे तस्य खड्गप्रहारेण शुण्डदण्डो द्विधा भवद गुर्वन् मदं मदम् संस्रावयन् कटाद भूतसन्तापनम् त्यक्त्वा भुवनम् कम्पयन् गजः निपादयन् महावीरान् खण्डानादैर्नदन्मुहुः न बलास्तस्तम्भितो दैत्यपुरीं चन्द्रावदीं ययौ कोलाहलो महानासीत् व्रजन्नेवम् गजेच्युदे भूतसन्तापनश्चक्रम् श्रीकृष्णस्य सुताय वै शिक्षेपनिषिदम् शीघ्रम् तदा गतम् भ्रमदृष्ट्वा चक्रं भद्रात्मजो बली स्वचक्रेण महाराज लीलया सदधाचिनद जठरस्य गिरे समुत्पाट्य महासुरख चिक्षेप कृष्णपुत्राय नादयन् व्योममण्डलं सङ्ग्रामजिक्ष तच्छृङ्गं गृहीत्वा भुजयोर्बलाद तताडतेन राजेन्द्रभूतसन्तापनम् रणे भूतसन्तापनो दैत्यसम्पूर्णम् जठरं गिरिम् गृहीत्वा सङ्करे तस्तावुद्भटो दैत्यपुङ्गवः अनेन खादयिष्यामि त्वाम् रणे प्रपदन्मुखाद देवगूढम् समुद्पाट्य गिरिम् च श्रीहरे अनेन खादयिष्यामि त्वां रणे प्रपदन्मुखाद तस्थौ तत्सम्मुखे राज्यं तदद्भुतमिवामवद क्षिपन्तं पर्वदं दैत्यं भूतसन्तापनं नृप तदा गिरिणाश्वेन रणे सङ्ग्रामजिद्बलिर्जठरो देवकूटश्च द्वौ गिरी दैत्यमस्तके पतितौ भूरि भाराढ्यौ वज्रसङ्घर्षनाभिनौ भूदसंतापनस्ताभ्यां पतितः पञ्चताम् गतः तज्यो दिस्सङ्ग्राम जिदि लीनम् जातम् विदेहराट श्रीसङ्ग्रामजितसैन्ये ने दुर्दुन्दुभयस्तदा भद्रात्मजोपरि सुरा पुष्पवर्षम् प्रचक्रिरे इति श्रीगर्गसंहितायाम् श्रीविश्वजित्कण्डे श्रीनारदबहलाश्वसंवादे भूतसन्तापनदैत्यवधो नाम त्रयस्त्रिंशोऽध्यायः ओ अध्यायम् तर्टिफोर् श्रीनारद उवाच सङ्ग्रामजिन्महायुद्धे भूदसंदापने मृदे आहाकारो महानास्यीदैत्यसेनासुमैथिलशुनिर्भृगकालनाभो महानाभस्तथैव च हरिश्मश्रुश्च पञ्चैते सम्प्राप्तरणमण्डले कार्ष्णि शकुनिनायुद्धधनिरुद्धो वृकेण कालनाभेन साम्बस्तु महानाभेन दीप्तिमान् हरिश्मश्वसुरेणाभिभानुकृष्णसुधो बली सर्वेषामग्रदप्राप्तो निरुद्धो धन्विनाम्बरः विभेदबाणैर्दैत्यांश्च वज्रेणेन्द्रो यथा गिरीन् अनिरुद्धशरैर्दैत्याश्चिन्नपादां स जानवः निपे दुर्मूर्छिता भूमवृक्षा अनिरुद्ध शरैस्तीक्ष्णैः संच्छिन्ना मेखडम्बराः छिन्नकुम्भा भिन्न शुण्ठाः पतिदा रणमण्डले रुग्णदन्ताश्चिन्नकक्षाः शैला वज्रहदा परिणाम् भिन्नकुम्भानां मुक्ता रेजुस्फुरत्प्रभाः बाणान्धकारे राजेन्द्ररात्रौ तारागण इव प्रदर्शिता केऽपि वीरा अनिरुद्धशरान्विदा निपेतुर्मूर्च्छिता भूमौ तदद्भुतमिवा भवद केचित् कौरथिनप्ये दुस्तेषाम् शून्या कपिद्धस्य फलानीव हस्तकोष्ठगदानि च क्षणमात्रेण राजेन्द्रदैत्यानां वाहिनीषुज नदी बभूवसङ्ग्रामे भीषणा क्षत्रजस्रवाद द्युग्राहा चोष्ट्रकरकम्बधास्यादिकच्छपा शिशुमाररथा केशशैवाला भुजसर्पिणी करमीनामौलिरत्नहारकुण्डलशर्करा शत्रशक्तिश्च त शङ्खा शास्त्रशक्ति शस्त्रशक्ति शस्त्रशङ्घा चामरध्वजसैकदा रथाङ्गवर्तसंयुक्ता सेनाध्वजतडावृदा सदयोजनविस्तीर्णा बभौ वैतरणी यथा प्रमथा भैरवाभूता वेदालायोगिनीगणाः अट्टहासंप्रकुर्वन्तो नृत्यन्दोरणमण्डले पिबन्धोरुधिरम् शश्वत्कपालेन नृपेश्वर हरस्य मुण्डमालार्थम् जगृहुस्ते शिरांसि च सिंहारूढा भद्रकाली रागिनीषदसंवृदा भक्षयन्दिरणे दैत्यानट्टहासं चकारः विद्याधर्यस्त्वम्बरस्थ गन्धर्व्योप्सरसस्तधा शात्रधर्मस्थितान् वीरान् वव्रीरे देवरूपिणः परस्परम् कलिर्भूत्वा तासाम् पत्यर्थमम् परे ममानुरूपो नायं व इति विह्वलचेदशा केचिद्वीरा धर्मपरा रणरङ्गान्नचालिताः ययोविष्णुपदम् दिव्यम् बित्वा मार्दण्डमण्डलम् अनिरुद्धम् रिपुम् दृष्ट्वा केचिद्दैत्या क्यजित् स्वम् स्वं रणं त्यक्त्वा दुद्रुवुस्ते दिशो तदा वृको महादैत्यकरारूढो भयङ्करः आ जगामनधन्युद्धे धनुष्टङ्गारयन्मुहुः अनिरुद्धापि चायं शिञ्जिनी सहितम् धनुः चिच्छेदशभिर्बाणैर्वृको विरणदुर्मदः चिह्नधन्वानि रुद्धस्तु द्वितीयं धनुराधदे चिच्छेदशभिर्बाणैर्वृकचापं महाबलः वृकस्त्रिशूलमुद्यम्यरुष प्रस्फुरिताधरः ललज्जिह्वप्रत्युवाचानि रुद्धं धन्विनां वरं वृक दैत्य उवाच अद्यैव त्वां हनिष्यामि क्षत्रियं स्वस्थविक्रमम् त्वया सेनाहदा मेऽद्य पश्य विक्रममद्भुतम् अनिरुद्ध उवाच ये वदन्तिमुखे नेखते कुर्वन्ति न किञ्चन अद्यैव त्वां हनिष्यामि पश्यमे विक्रमं परं न चेत् त्वां खादयिष्यामि मम विप्रगोभ्रूणबालानां हत्या सदैव हि श्रीनारद उवाच भृकोऽपि शपथं कृत्वा करारूढो महाबलः जखानतं त्रिशूलेनानिरुद्धम् नानिरुद्धं बलं तच्छूलं वामहस्तेन गृहीत्वा काष्णिनन्दनः तदाडसखस राजन् भृगदैत्यं महाबलं तदा मुक्त्वा धमगदीं गदं चूर्णयामास सखसा चानिरुद्धरथं बलाद प्राग्युं निश्चितधारेण खड्गे नारिभुजद्वयं चिच्छेदविदुरेणाशु शैलपक्षौ यदा वृषा तदा भिन्नभुजो दैत्यपद्भ्यामाकम्पयन्भुवं विस्तीर्णं वदनं कृत्वा ललज्जिह्ं भयङ्करं करालदंष्ट प्रबिबन्नाकाशं दैत्यपुङ्गवः तिमिं तिमिङ्गिल इव प्राग्रसत्कार्ष्णिनन्दनं दैत्योदरे कृष्णपौत्र श्रीकृष्णस्यानुकम्पया नम मारमहाराज कार्ष्णीर्मीनोदरे यथा मृगोदरे यथा कृष्णो यथा गोपाह्यखोदरे बकोदरे यथा कृष्णो वृत्रो वृत्रोदरे वृषा आहाकारे तदा जादे यदुसैन्ये विदेहराड गदो गदाम् समादाय बलदेवानुजो बली तदाडमस्तके दैत्यम् मृगम् नाम महाबलं तदाहदशिरा दैत्योरे दैत्योरेजे क्षद च गिरिकायिर्जलधाराभिर्यथा विन्ध्याचलो नृपा फार्गुनस्वमसिं नीत्वा तत्पादौ चाञ्जसाहरद चिन्नाकृस पपातो चिन्नपक्षो यथा गिरिः अनिरुद्धस्तदुद्धरं भीत्वा खड्गेन निर्गदः जहार तच्चिरश्चायं यथा वज्रेण वृत्राः तदा जय जय रावो यदुसैन्ये बभूवः देवदुन्दुभयो ने दुर्नरदुन्दुभयस्तथा अनिरुद्धोपरिसुरापुष्पवर्षम् प्रचक्रिरे कथितं यद्भुतं चैदत् किं भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वृगदैत्यवधो नाम चातुस्त्रिंशोऽध्यायः ओम्